हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे पञ्चनवतितम स्वर्ग श्रीरामेण सीतां प्रति हरिद्वराया मन्दाकिन्या सुषमाया वर्णनम् अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वर अदर्शयत् शुभयलाम् रम्यां मन्दाकिनीं नदीम् अब्रवीश्च वरारोहां चन्द्रचारु निभननां विदेहराजस्य सुताम् रामो राजीवलोचनः विचित्रपुलिनाम् रम्याम् हंससारसेविताम् कुसुमयी उपसम्पन्नाम् पश्य मन्दाकिनीं नदीं नानाविधै चिरुरुहि वृतां पुष्प राजन्तीम् राजराजस्य नलिनीमिव सर्वतः मृगयूथ निपीतानि कलुषाम् भासि साम्प्रतम् तीर्थानि रमणीयानि रतिम् सञ्जनयन्ति मे जटाजिन धराकाले वल्कलोत्तर वाससः ऋषये रुशे, तु अवगाहन्ते नदीम् मन्दाकिनीम् प्रिये आदित्यमुपतिष्ठन्ते नियमादूर्धाहवः एते परे विशालाक्षि मुनय संशितव्रतः भारुतो धूतशिखरैः परनृत्त इव पर्वतः पादपै पुष्पपत्राणि सूर्यद्भिः अभितो नदीम् क्वचिन्मणि निकाशोदाम् क्वचित् पुलीनशालिनीम् क्वचित् सिद्धजनाकीणाम् पश्य मन्दाकिनीम् नदीम् निर्धूतान् वायुनान् पश्य विततान् पुष्प सञ्चयान् पोपूयमानानपरान् पश्य त्वं तनु मध्य मे पश्यैतत् फलघुवचसो रथाङ्गाह्हन्ति कल्याणि निष्कूजन्त शुभा गिरा दर्शनं चित्रकूटस्य मन्दाकिन्या शोभने अधिकं पुरवासा मन्नेतवच मन्ये तव कल्मशे दर्शनात् विधूत कल्मषे सिद्धै तपोदमाशमान्वितै नित्यवीक्षोभितजलाम् विगाहस्व मयासह सह सखीवच्च ी ते मन्दाकिनीम् नदीम् कमलान्यव मज्जन्ति पुष्कराणि च भामिनि सम्पौरजनवद्व्यालाम् अयोध्यामिव पर्वतम् मन्यस्वनिते नित्यम् सरयूवदिमाम् नदीम् लक्ष्मणश्चैव धर्मात्मा मन्यदेशे व्यवस्थिते तं चानुपूला वैदेहि ीतिम् जनयन् जनयति मम उपसुषन् स्त्रीश्रवणम् मदमूलेपलाशनः नायोध्यायै न राज्याय स्पृहते च तया सह एमाम्भिरम्याम् गजयूथ लोडिताम् निपीततो याम् न नगतक्लमसुखी। यश्चान्न गत क्लमसुखी इति रामो बहु सङ्गतं वचे प्रिया रम्यं नैनाञ्जनप्रभम् सचित्र कूटं रघवंश वर्धन इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्ये अयोध्याखण्डे पञ्च